हरि श्री श्रीजगदम्बिकायै नमः अथ श्रीमद्देवी भागवत महापुराणे तृतीयस्कन्धे चतुर्दशोऽध्यायः जनमेजय उवाच श्रुतो वै हरिणा क्लृप्तो यज्ञो विस्तरतो द्विज महिमानं तथाम्बाया वद विस्तरतो मम श्रुत्वा देव्याचरितं पूर्वे मरखम् अनुत्तमम् प्रसादात् तव विप्रेन्द्र भविष्यामि च पावनः व्यास उवाच धृणुराजन् प्रवक्ष्यामि देव्याश्रितमोत्तमम् इतिहासम् पुराणञ्च कथयामि सुवित्तरम् कोसलेषु नृपाश्व सूर्यवंश समुद्भवः पुष्यपुत्रो महातेजा ध्रुवसन्धिरिति स्मृतः धर्मात्मा सत्यदन्तश्च वर्णाश्रमैरतः अयोध्यायां समृद्धायां राज्यं चक्रे शुचिव्रतः ब्राह्मणा क्षत्रिया वैश्या शुद्राचार्य सां साम् वृत्तिं समाधाय तद्रजे धर्मतो भवन् न चरापिशुना धूर्ता तस्य राज्ये च कुत्रचित् दन्धाकृतघ्ना मूर्खा वसन्ति किल मान वा एवं वै दे पत्न्यो रूपसम्पन्न यासतु कामभोगदे मनोरमा धर्मपत्नी सुरूपाति विचक्षणा लीलावती तृतीया च सापि रूपगुणान्विता विचार सपत्नीभ्यां गृहेषु पवनेषु च क्रीडागिरो दीर्घिकासु सौधेषु विविधेषु च मनोरमा शुभे कालेषु शुभे पुत्रमोत्तमम् सुदर्शनाभिधम् पुत्रम् राजलक्षणसंयुतम् लीलावत्यपि तत्पत्नी मासे नैकेन भामिने सुशुवे सुंदरं पुत्रं शुभे पक्षे दिने तथा चकार नृपते तत्र जातकर्मादिकं द्वयो ददारानि विप्रेभ्य पुत्रजन्म प्रमोदितः प्रीतिं तयो मां राजा नृपश्चकार सौहार्दे सौहार्देेषु अनन्तरं न कदाचर चूडाकर्म तयोश्चक्रे विधि न नृपसत्तमः यथाविभवमेवासु प्रीतियुक्तप्रन्दपः कृतचूडो सुकामम् जरतु नृपतेर्मनः क्रीडम् मानावभो का तु लोकानामानुरञ्जकौ तयो सुदर्शनो ज्येष्ठो लीलावत्या सुदर्शिव चतुर्जी सन्यकम् सम्यक कामम् चाटुवाक्यो बभूवः नृपते प्रीतिजनको मजूम् मञ्जूवाक्चारुदर्शनः प्रजानां वल्लभ स्वभूस्तथा मन्त्रीजनस्य वै यथा तस्मिन् नृप प्रीतिम् चकारे गुणयोगतः मन्दभाग्यान् मन्दभावो न तथा वै एवं गच्छति काले तु ध्रुवसन्धि नृपोत्तमः जगाम वनमध्ये तु मृपयाभिधन् मृगान् नृन् कम्बुन् सुकरान् गवयान् शशान् महिषाञ्चरभान् खणगान् चिक्रीड नृपतिर्वने क्रीडमाने नृपे तत्र वने घोरेति दारुणे उदतिष्ठन् निगुञ्जान्तु सिंहपरमकोपनः राज्ञाशीलीमुखे नादो विद्य क्रोधवशं गतः दृष्ट्वा गृहे नृपतिं सिंहो ननादमेश्वरः कृत्वा चोढं चलाङ्गोलम् प्रसारीत बृहत् तटः हन्तुं नृपतिमाकाशात् उत्पपातातिकोपनः नृपति तरस करे तदा वा मे चर्म समाधायसितसिंह इवापरः सेवकात्स ये सर्वे तेऽपि बाणां पृथक् पृथक् अमञ्चन् कुपिता कामं सिंह परिरुशान्विता हाहाकारो महानासीत् सम्प्रहारश्च दारुणः उत्पवात् तथा सिंहो नृपस्य उपरि दारुणः सम्पदन्तम् समालोक्य खड्गे नाभ्यः न तृप स्वपि सैनखैतो राजा पपात्र च ममारवै चक्रशु सैनिकासेतु निर्जघ्नो विशिखैस्तदा मत सिंहोऽपि तत्रैव भूपते च तथा चे सैनिकैः मन्त्रिमुख्या चैतरागत्य निवेदितः परलोकगतम्भोप धृत्वा ते मन्त्रिसत्तमा संस्कारं कारया मासु गत्वा तत्र वनान्ति के परलोक क्रियां सर्वं वसिष्ठो विधिपूर्वकम् कारयामास तत्रैव परलोक सुखावहाम् प्रजाप्रकृतयश्चैव वसिष्ठश्च महामुनिः सुदर्शनम् नृपं कर्तुम् मन्त्रं चक्रु परस्परम् धर्मपत्नी सुदर्श पुरुषश्च सुलक्षणः अयम् नृपासनार्हश्च हि अब्रुवन्मन्त्रिसत्तमः वसिष्ठोऽपि तथैव बालोपी योग्योम नृपते सुत बालों धर्मान राज नृपाशनमुद्ध युधा जिनम पार्थिव सतराजगा जैनी पति जातरम शुवा लीलाविता ततराजगा दौ प्रियम वीरसेन तथा यात सुदर्शन इतेच्छया कलिङ्गाधिपति चैव मनोरमा मनोरमा पिता नृप उभौतो सन्संयुक्तो संस्थितौ चक्रतुर्मन्त्रि मुख्यस्य मुख्यस्यै मन्त्रम् राज्यस्य कारणात् युधा जित्तु तदा पृच्छत् ज्येष्ठ कोर्द्वयो राज्यम् प्राप्नोति ज्येष्ठो वै नैकनीयान् कदाचल वीरसेनोऽपि तत्राह धर्मपत्नी सुदक्षिल राजाः स यथा राजन् चात्रेभ्यो शात्रज्ञेभ्यो मया श्रुतं यदाजित् पुनराहेदम् ज्येष्ठो यम् च यथा गुणै राजालक्षणसंयुक्तो न तथा यम् सुदर्शनः विवादोऽत्र सुसम्पन्नो नृपयो तत्र लुब्धयो क्षमस्याजेन्मन्त्रिणम् प्राह यूयम् स्वास्थपरा किल सुदर्शनम् नृपम् कृत्वा धनम् भोक्तुम् किलच्छथ युष्माकम् तु विचारोऽयम् मया ज्ञातस्तसंज्ञै शत्रुजी सबलस्तस्मात् सम्मतो वो नृपासने मयि जीवति कुर्यात् कनीयान्तम् नृपम् किल त्यक्त्वा ज्येष्ठम् गुणार्हञ्च सेनया च समन्वितम् नूनम् युद्धं करिष्यामि तस्मिन् खड्गस्य मेलने धारय्या द्विधा भूया युष्माकम् तत्रका कथा प्रियतेन सुतच्छ्रुत्वा युधा जीतम् अभाषत बालो द्वसदृशो प्रज्ञो कोभि विचक्षण एवं प्रयाचय ऋषयश्चैव बहूर्व्यग्रमानसः समाजमोक्ष सामान्तः सञ्ज्ञाक्लेशतस्पराः विग्रहम् चाभिकाङ्क्षन्ते परस्परम् असन्द्रिताः निजाता ह्यायस्तत्र शृङ्गभीरपुराश्रया राज्यद्रव्यम् अपाहर्तुम् मृतम् श्रुत्वा मयिपतिम् पुत्रौ च बालकोश कृत्वा च परस्परम् चौरा तत्र समाजो देशदेशान्तरादपि सम्वर्धतत्र सञ्जाते कलहे समुपस्थिते युधाजिद्वीरतेनश्च युद्धकामो बभूवतु इति श्रीमद्देवी भागवते मापुराणे अष्टादशशाद्यां संहितायाम् तृतीयस्कन्धे युधाजितवीरतेन यो युद्धात् सज्जीभवनम् नाम चतुर्दशोऽध्यायः श्रीजगदम्बिकायार्पणमस्तु